अपरे त्वब्रुवन्नागा धर्मात्मानो दयाळवः अबुद्धिरेषा भवताम् ब्रह्महत्या न शोभनम् सम्यक् सद्धर्ममूलावैव्यसने शान्तिरुत्तमा अधर्मोत्तरता नामकृत्स्वम् व्यापादये जगत् अपरे त्वब्रुवन्नागाः समिद्धम् जातवेदसम् वर्षैर्निर्वापयिष्यामो मेघा भूत्वा स विद्युतः स्रग्भाण्डम् च अपरे भुजगोत्तमाः प्रमत्तानाम् हरन्त्वा सुविघ्न एवम् भविष्यति यिज्ञे वा भुजगास्तस्मिन् शतसोऽथ सहस्रशः जनान् दशन्तु वै सर्वे नैवम् त्रासो भविष्यति अथवा संस्कृतम् भोज्यम् दूषयन्तु भुजङ्गमाः स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे यज्ञविघ्नम् करिष्यामोदीयताम् दक्षिणा इति वस्यताम् च गतोऽसौनः करिष्यति यथेप्सितम् अपरे जले प्रक्रीडितम् नृपम् गृहमानीयबध्नीमः क्रतुरेवम् भवेन्न सः अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः दशामस्तम् प्रगुह्यासु कृतमेवम् भविष्यति छिन्नम् मूलमनर्थानाम् वृतेतस्मिन्भविष्यति एषा येशानो नैष्ठिकी बुद्धिः सर्वेषा मेक्षणश्रयः अथ यन्मन्यसे राजन् द्रुतम् तत्संविधीयताम् इत्युक्त्वा समुदेक्षन्त वासुकिम् पन्नगोत्तमम् वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् नैषावो नैष्टिकी बुद्धिर्मदाता कर्तुम् भुजङ्गमाः सर्वेषामेव मे बुद्धिः पन्नगानाम् न किम् तत्र संविधातव्यम् भवताम् स्याद्धितम् तु यत् श्रेयःप्रसाधनम् मन्ये कस्यपस्य महात्मनः ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः न च जानाति मे बुद्धि किञ्चित् कर्तुम् वचो वः मया विधातव्यं विधातव्यम् भवताम् यद्धितं भवेत् अनेनाहम् भृशन्तप्ये गुणदोषौ मदाश्रयौ इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुक्यादिमन्त्रणे सप्तत्रिंशोऽध्यायः